अथ चतुर्दशाधिकशततमः सर्गः स्निग्धगम्भीरघोषेण स्यन्दनेनोपयान् प्रभुः अयोध्याम् परतः क्षिप्रम् प्रविवेश महायशाः बिडालो लोकचरितामालीननरबाणनाम् तिमिराभ्याहताम् कालीमप्रकाशान्निशाविव राहुशत्रोः प्रियाम् पत्नीम् श्रिया प्रज्वलित प्रभाम् ग्रहेणाभ्युदितेनैकाम् रोहिणीविव पीडिताम् अल्पोष्णक्षुब्धसलिलाम् घर्मतप्तविहङ्गमाम् लीनमीनझष ग्राहाम् कृशाम् गिरिनदीमिव विधूमाविव हेमाभाम् हविरभ्युक्षिताम् पश्चाच्छिखाम् विप्रलयम् गताम् विध्वस्तकवचाम् रुग्णगजवाजिरथध्वजाम् हतप्रवीरामापन्नाम् च मोमिव महाहवे सफेनाम् सस्वनाम् भूत्वा सागरस्य समुत्थिताम् प्रशान्त मारुतोद्धूताम् त्यक्ताम् यज्ञायुधैः सर्वैरभिरूपैश्च याजकैः सुत्याकालेषु निर्वृत्ते वेदिम् गतरवामिव गोष्ठमध्ये स्थितामार्तामचरन्तीम् न मन्त्रणम् गोवृषेण परित्यक्ताम् गवाम् पत्नीमिवोत्सुकाम् प्रभाकराद्यैः सुस्निग्धैः वियुक्ताम् मणिभिर्जात्यैर्नवाम् मुक्तावलीमिव सहसाचरिताम् स्थानान्महीम् पुण्यक्षयाद्गताम् संहृतद्युतिविस्ताराम् तारामिव दिवश्च्युताम् पुष्पनद्धाम् वसन्तान्ते मत्तभ्रमरशालिनीम् द्रुतदावाग्निविप्लुष्टाम् क्लान्ताम् वनलतामिव सम्मूढ निगमाम् सर्वाम् सङ्क्षिप्त विपणापणाम् प्रच्छन्न शशि नक्षत्राम् द्यामि वाम्बुधरैर्युताम् क्षीणपानोत्तमैर्भग्नैः शरावैरभिसंवृताम् हतशौण्डामिवध्वस्ताम् पानभूमिमसंस्कृताम् वृक्नभूमितलाम् निम्नाम् उपयुक्तोदकाम् भग्नाम् प्रपान्निपतितामिव विपुलाम् वितताम् चैव युक्तपाशाम् तरस्विनाम् भूमौ बाणैर्विनिष्कृत्ताम् पतिताम् ज्यामि वायुधात् सहसा युद्धशौण्डेन हयारोहेण वाहिताम् निहताम् प्रतिसैन्येन बडभामिव पातिताम् भरतस्तु रथस्थः सन् हयन्तम् रथः श्रेष्ठम् सारथिम् वाक्यमब्रवीत् किम् नु खल्वद्य गम्भीरो मूर्च्छितो न निशाम्यते यथा पुरमयोध्यायाम् गीतवादित्रणिःस्वनः वारुणी मदगन्धश्च माल्यगन्धश्च मूर्च्छितः चन्दना गुरुगन्धश्च न प्रवातिसमन्ततः प्रमत्तगजनादश्च महांश्च रथनिस्वनः नेदानीम् श्रूयते पुर्यामस्याम् रामे विवासिते चन्दना गुरुगन्धांश्च महार्हाश्च वनस्रजः गते रामेः तरुणाः सन्तप्ता नोपभुञ्जते बहिर्यात्राम् न गच्छन्ति चित्रमाल्यधरा नराः नोत्सवाः सम्प्रवर्तन्ते रामशोकार्दिते पुरे सा हि नूनम् मम भ्रात्रा पुरस्यास्यद्युतिर्गता महिराजत्ययोध्येयम् सा सारेवार्जुनीक्षपा कदा नु खलु मे भ्राता महोत्सव इवागतः जनयिष्यत्ययोध्यायाम् हर्षम् ग्रीष्म इवाम्बुदः तरुणैश्चारुवेशैश्च नरैरुन्नतगामिभिः सम्पतद्भिरयोध्यायाम् नाभिभान्ति महापथाः इति ब्रुवन् सारथिना भरतस्तदा अयोध्याम् सम्प्रविश्यैव विवेश वसतिम् पितुः नरेन्द्रेण सिंहहीनाम् गुहामिव तदा तदन्तः पुरमुज्झित दिनम् निरीक्ष्य सर्वत्र विभक्तमात्मवान्मुमोचब बाष्पम् भरतः सुदुःखितः इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे सर्गः